नारदपुराणं पूर्वार्थम् अध्यायं नैन्टी सनत्कुमार उवाच अथातो प्रयोगादि समन्वितं पटलं तेऽभिधास्यामि नित्याभ्यर्चनदीपकम् ललिताया स्त्रिभिवर्णैः सकलार्थोऽधीयते शेषेण देवीरूपेण तेन स्यादिदमीरितम् अशेषदो जगत्कृष्णं हृलेखात्मकमुच्यते तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः व्योम्ना प्रकाश्यमानत्वं ग्रसमानत्वमग्निना तयोर्विमर्श ईकारो बिन्दुना तन्निभालनम् पिण्डकर्तरि बीजाख्या मन्त्रा मालाभिधाक्रमाद ये कार्णवन्दोद्वर्णाश्च त्रिदिङ्मुकार्णकाः वृत्तिजार्णाल्लिखेदङ्गैर्व्यत्यस्तक्रमयोगतः तैर्भेदयोजनं कुर्यासन्दर्भाणामशेषतः देव्यात्मकं समुदयं विश्रान्तिं च शिवात्मकम् उभयात्मकमप्यात्मस्वरूपम् तैश्च भावयेद काले नान्यं ज दुःखार्ति वासनाशनोद्ध्रुवं पराहं तामयं सर्वस्वरूपं चात्मविग्रहं सदात्मकं स्फुरताख्यमरोषोपाधिगर्जितम् प्रकाशरूपमात्मत्वे वस्तु तद्भासदे परम् येद एवमधो लोके यदक्षरं यद्विद्येति समाख्यादं सर्वथा सर्वतः सदा वासरेषु तु तेष्वेवं सर्वापत्तारकं भवेद तद्विधानं च वक्ष्यामि सम्यगासवकल्पनं गौडीपैष्टी तत्रिविधं स्मृदं त्रिविधं स्मृतं गदुदमुष्णोदके क्षिप्त्वा समालोढ्य विनिक्षिपेद खडेकाचमयेतस्मिन् धाधकीसुमनोरजः कत्व भूमौ सन्ध्ययोस्तु करैः संक्षोभ्य भूयसा मासमात्रे कदेतस्मिन्निमग्ने रजसिद्धृदं संशोभ्य पूजयेतेन गौडी सा गुडयोगदः एवं मधुसमयोगन्माध्वी वैष्ठीं शृणु प्रिय अध्यर्थद्विगुणेतोये श्रपये तन्तुलं शनैः दिनत्र योषिदे तस्मिन् धात्र्यङ्कुरजः क्षिपेत् दिनमेकं धृते वादे निवादे स्थापयेत्तदः उदकैर्ललितं पश्चाद्गलितं पैष्टिकं मधुः वृक्षजं बलजं चेदि द्विविधं क्रियते मधु, मधु। तन्निर्माणं शृणुष्वद्य यदा स्वादान्मनोलयः मृद्वीकां वाच पुष्पमधापिवा खर्जूरफलं पुष्पमधापि वा मधुकस्याम्भसि क्षिप्त्वा शत्रुमर्धावशेषितं प्राक्सृतास्सलेशेन मिलितं दिवसद्वयादकालिदं स्वादुपूजार्हं मनोलयकरं शुभं वार्क्षं तु नालिकेरं स्यात् दिन्तालस्याधतालतः अल काण्डास्नुदम् दुग्धम् नीदम् सद्यो रस्वहम् नालिके प्रफलं तस्तसलिले शशिनायुधे अर्धपूगफलोक्तम् तु रमं संक्षिप्य तापयेद तपे सद्य ये वै ददासवं देवताप्रियम् देव्यै निवेर्दयेद देवै कृत्वा तद दा सद्यो दद्य तत्सिद्धयेद्वयं साधको नियदा हारसमाधिस्थः पिबेत् सदा न कदाचित् पिबोत्सिद्धो देव्यर्थमनिवेदिदं पानं च तावत् कुर्वीद यावदास्यान्मनोलयः ततः करोति चेत् सद्यपादकी भवति ध्रुवं देवता गुरुशिष्ठान्यं पिबन्ना सवमाशया पादकी राजदम्भ्यश्च रिखतोपासक एव च साध्यसातकयोरेदत्काम्य एव समीचितं सिद्धस्य सर्वदा प्रोक्तं यदोऽसौ तन्मयो भवेद् पूजयेत्प्रोक्तरूपस्तु प्रोक्तश्च ताक्रमाद उपचारैरासवैश्च मत्स्यैर्मांसैस्तु संस्कृतैः अध काम्यार्चनं वक्ष्ये प्रयोगांश्चापि नारद येषामाचरणसिद्धिं साधको लभदे ध्रुवं चैत्रे दमनकैरार्चेत् पूर्णायां वैशाखे मासिपूर्णायां पूजयेद्धर्मपुष्पकैः जैष्ठ्यां भलैर्यजेन्देवीं कदलीपनःसां न जैः आषाढ्यां चन्दनैरेलाजादीकङ्कोलकुङ्कुमैः श्रावण्यामागमोक्तेन विधिनार्चेत्पवित्रगैः पौष्टपद्यां गन्धपुष्पैर्यजेद्वाकेतकीसुमैः आश्वायुज्यां कन्यकार्चाभूषवस्त्रधनादिभिः कार्तिक्यां कुङ्कुमैश्चैव निशिदीपगणैरपि स चन्द्रैर्मार्गशीर्ष्यां तु नालिकेरैरपूपकैः पौष्यां स शर्करगुडैर्गवां दुग्धैः समर्चयेद स्वर्णरौप्यैः पङ्कजैस्तु माख्यां सौगन्धिकादिभिः पाल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगन्धिभिः पर्वताग्रे जयेद्देवी पलाशकुसुमैर्निः सिद्धद्रव्यश्च सप्ताहात्केजरी मेलनं भवेद अरण्ये वडमूले वा कुञ्जे वा धरणीभृदां कदम्ब गजादि पुष्पाभ्यां सिद्धद्रव्यै शिवां यजेद मासेन सिद्धा यक्षिण्यप्रत्यक्षा वाञ्छिदप्रदाः केतकिकुसुमयि सिद्धा चेडका वारिधेस्तडा आज्ञामभीष्टां कुर्वन्दिरणे मायां महाद्भुतान् वसूनिमालाम्बूषां च दद्युरस्येफ यानिशम् पीडमृक्षध्रुमयि कृत्वा तत्र देवीं यजेन्निशि शाल्मलैकुसुमयि सिद्धद्रव्यैर्मासं तु निर्भयम् श्यशानदेश्ये विप्रेन्द्रसिद्ध्यं त्यस्य पिशाचकाफ अस्म पादप्रहाराद्यार्जीयादाभिर्द्विषश्चिरम् निर्जने विपिने रात्रौ मासमात्रं तु निर्भयः यजे देवीं केतकी मरुभिक्रमाद तेन सिध्यन्ति वेदालास्तानारुह्येच्छया चरेद श्मशाने चण्डिकागेः निर्जने विपिने पिवा मध्यरात्रे यजे देवीं कृष्णवस्त्रविभूषणैः कृष्णचकृति कृष्णाम् सामधि क्रुद्धाशयो यजेद साध्ययोनिं तदग्रेदु बलिं चिन्तन्निवेदयेद सिद्धद्रव्यसमेतं तु मासा तद्भालोचनाद जायन्ते भीषणाकृत्यास्ताभ्यसिद्धिं निवेदयेद विश्वसंहारसन्तुष्टाः पुनरेत्य निजेच्छया देव्या ललाडनेत्रे स्युः प्रार्थिते तु तिरोहिताः रक्तदभूषाम्बरालेपमालाभूषितविग्रहाः उद्याने नर्जने देवीं चक्रे संचिन्त्य पूजयेद कह्लार चम्बकाशोक पाडला शतपत्रकैः सिद्धद्रव्यसमुपेतैर्मा या सिध्यन्ति मासदः या सां प्रसादलाभेन कामरूपो चन्द्रचन्दनकस्तूरी मृदनाभिमहोदयैः त्रिकालज्ञो भवेद्देवीं तेषु सम्यक् विचिन्तयेत् पूर्णप्रतिदौ भव्यानि विकले भव्यमीरितं देवीं चक्रेण सहितां स्मरेद्भक्तियुधो नरः विवेका विभवा विश्वा वितथा कामिनी शेखरी, कामिनी केचरी गर्वा पुराण परमेश गौरी शिवा विमला विजया परा पवित्रापीडिनी विद्या विश्वेशी शिववल्लभा अशेषरूपा स्वानन्दाम्बुजाक्षी चाप्य निन्दिदा वरदा वाक्यदा वाणी विविधा विद्या विद्यावागीश्वरी सत्या संयता च सरस्वती निर्मलानन्दरूपा च ह्यमृता मानदा तथा पुषा चैव तथा तुष्टिपुष्टिश्चापि रतिर्धृतिः शासिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीप्रीतिरङ्गदा देवी नामानि चैदानि चुलूके सलिले स्मरन् मातृका सखितां विघ्नां त्रिरावृत्या मृदात्मिका ताडीं सरस्वतीं जिह्वां दीपाकाराम् स्मरन् पिबेद अग्धाञ्च दुर्विधं तस्य पाण्डित्यम्बुविजायते एवं नित्यमुषकाले यकुल्याच्छुब्ध मानसः सयोगी योगी ब्रह्मविज्ञानी शिवयोगी तथात्मविद अनुग्रहोक्तचक्रस्थां देवीं ताभिर्वृता स्मरेद चम्पकेन्द्रीवरैर्मासादारोग्यमुपजायते ज्वरभूतग्रहोन्मादशीदकाकमाक्रीदका कामलाक्षिहृद गुल्मादि दन्तकर्णज्वरशिरशूलगुल्मादिकुक्षिजाः व्रणप्रमेह छर्द्यार्षोग्रहण्यामस्त्रिदोषः सर्वे तथा शमं यान्ति पूजय परमेश्वरी द्रव्यं चक्रस्य निर्माणे काश्मीरं समुदीरितम् सिन्धूरं गैरिकं लाक्षादरदं दरदं चन्दनद्वयं बिलद्वारे लिखे त्रियस्रं षोडशत्रियस्रसंयुतं दरदेनास्य मध्यस्थां पूजयेत् परमेश्वरीं ताभिस्तच्चक्रिभिः साकं सिद्धद्रव्यै सुगन्धिभिः कुसुमैर्मासमात्रेण नागकन्यासमन्वितं पादालादिषु लोकेषु रमयतनिशं चिरं यक्षराक्षसगन्धर्वसिद्धविद्याधराङ्गनाः पिशाचा गुह्यकाविरा किन्निरा भुजगास्तथा सिद्ध्यन्ति पूजन तत्र तथा तत्प्रोक्तकालतः किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये रक्तोत्पलैरश्वसिद्धौ कुमुदैश्चरसिद्धये उत्पलैरुष्ट्रसंसिद्ध्यै तकरैः पशुसिद्धये जम्बीरैर्मवाप्त्यै लखुचैरजसिद्धये दाढिमैर्निधि संसिद्ध्यै मधुकैर्गानसिद्धये शतपत्रैर्जयावाप्त्यैकेदकैर्वाहनाप्तये सौरभाढ्यैप्रसूनैस्तु नित्यं सौभाग्यसिद्धये पूज्येन्मासमात्रं वा द्विगुणं त्रिगुणं तु वा या भ फला वाक्तिकाङ्क्षी शर्कराकृतपायसैः सचक्रपरिवारां तां देवीं सलिलमध्यगां तर्पयत् कुसुमै सार्ध्यै सर्वोपद्रवशान्धये कृदयै पूर्णायुषसिद्ध्यै क्षौध्रै सौभाग्यसिद्धये दुग्धैरारोग्यसंसिद्ध्यै त्रिभिरैश्वर्यसिद्धये नृपाप्तये नालिकेरोदघैप्रीत्यै हिमतो यैर्नृपाप्तये सर्वार्थसिद्ध्या सर्वार्धसिद्धयत्तौर्यरभिषिञ्जेन्महेश्वरीं पूगोद्याने यजे देवीं सिद्धद्रव्यैर्दिवानिशं निवसं तत्र तत्पुष्पैर्जायदे मन्मथोपमः पूर्णास्तु नियत्तम् देवीम् कन्यकायाम् समर्चयन् कृत्या परेरिदा मन्द्रा विमुखां स्तान् ग्रसन्दि वै लिङ्गत्रयमयीं देवीं, देवीं चक्रस्थाभिश्च पूजयन्निष्टमखिलं लभतेऽत्र परत्र च शतमानकृतैः स्वर्णपुष्पैः सौरभ्यवासितैः पूजयन्मासमात्रेण प्राग्जन्माद्यैर्विमुच्यते तथा रत्नैश्च नवभिर्मासं तु यदि पूजयेद् विमुक्तसर्वपापौखैस्तां च पश्यति चक्षुषा अंशुकैरर्चयेद्देवी मासमात्रं सुगन्धिभिः मुच्यते पापकृत्यादि दुःखौ खैरिदतैरपि देवीरूपं स्वमात्मानं चक्रं शक्रिस्समन्तदः भावयन्विषयै पुष्पै तन्मयो भवेद। षोडशानां तु नित्यानां प्रत्येकतिथयक्रमाद तत्तिथौ तद्भजनं जहोमादिकं चरेद हृतं च शर्करा दुग्धमपूपं कदलीफलं क्षौद्रं गुडं नालिकेरफलं लाजातिलं दधि पृथुकं चणकं मुद्गपायसं च निवेदयेद् कामेश्वर्यादिशक्तीनां सर्वासामपि चोदितम् आद्याया ललितायास्तु सर्वाण्येदानि सर्वदा निवेदयेन् यजुः याद्वह्नौ दध्या नृणामपि तत्तद्विद्याक्षरप्रोक्तमौषधं गुडिकीकृत्य ताभिसर्वं च साधयेत् रविवारेणाम्भोजै कुमुदै सोमवारके भौमे रक्तोत्पलै सौमेवारे तगरसम्भवैः गुरुवारे सुकह्लारै शुक्रवारे सीताम्बुजैः नीलोत्पलैर्मन्दवारे पूजये दिष्टमादराद निवेदयेत् क्रमात्षु रविवारादिषु क्रमाद पायसं नवनीद सिधाकृतं यवमिष्टं समाराध्य देवीं गन्धादिभिर्यजेद ग्रहपीडां विजित्याशु सुखा निज समश्नुदे अर्धरात्रे दुस्साध्यां स्त्रीं स्मरन् मदनवह्निनां दह्यमानां हृदस्वान्तां मस्तकस्तापिताञ्जलिं विकीर्णकेशीमालोललोचनामरुणारुणां वायुप्रेङ्खत्पदाकास्पदा कास्तपदा चिन्तयन्नर्चये चक्रं मध्ये देवीं दिगम्बरां जपादाडिमबन्धूक किंशुकाद्यै समर्चयेद् अन्यैः सुगन्धिसेभालीकुसुमाद्यै समर्चयेद् त्रिसप्त रात्रा दायादि प्रोक्तरूपा मदाकुला यावच्छरीरपादस्या चाभो वानपगास्य सा पद्मैरक्तयस्त्रीमध्वाकृतैर्होमा लक्ष्मीमवाप्नुयाद तथैव कैरवैरक्तैरङ्गनास्वशं नयेद समानरूपवत्साय शुक्लाय गोपयप्लुतैः मल्लिकामालदीजादीशतपत्रैर्हृदैर्भवेद कीर्तिविद्याधनारोग्यसौभाग्यवित्तपादिगम् अरग्वदप्रसूनैस्तु क्षौद्राक्दाैर्हवनाद्भवेद स्वर्णादिस्तम्भनं शत्रो नृपादीनां क्रोधोऽपि च ज्याक्रैः करविरोद्धैर्प्रसूनैररुणैर्हृदैः रक्ताम्बराणि वनिता भूपामात्यवशं तथा भूषावाहनवाणिज्य सिद्धयश्चास्य वाञ्छिताः लवणैः सर्षर्पैरैर्जितरैर्वाधहोमदः स तैलाक्रैर्निशामध्ये त्वा न येद्वाञ्छिदां वधूं तैलाक्तैर्जुहुयात्कृष्णधरपुष्पैर्निशान्तरे मासादरातेस्तस्यार्तिर्ज्वरेण भवति ध्रुवम् आरुष्करैर्धृदाभ्यक्रैस्तद्बीजैर्निशिहो मदः शत्रोर्दाहव्रणानि स्युर्दुःसाध्यानि चिकित्सकैः तथा तत्तैलसंसिक्तैर्बीजैरङ्गोलकैरपि मरीचै सर्षपाज्याक्रौ नशि होमानुसारदः वाञ्छितां वनितां कामज्वरार्ता मानये ध्रुतम् शालिभिष्टाज्य संसिक्तैर्होमाच्छालीनवाप्नुयाद मुग्धार्मुग्धं हृदैराज्यं सिद्धैरिद्धं हुतैर्भवेद साध्यर्क्ष वृक्ष सम्भुदां पिष्टपाद रजकृतां राजीमरीचिरोणाद्धां पुत्तलीं जुहुयान्निशि प्रपदाभ्यां च चङ्काभ्यां जानुभ्यामुरुयुक्मदः नाभिरदस्ताद्धृदया भिन्नेनाकण्ठस्तथा शिरसा च सुतीक्ष्णेन छित्वा वैक्रमाद एवं द्वादशधा होमान्नरनारीनराधिपः वश्या भवन्ति सम्पताडाज्वरार्तिश्चास्य वाञ्छया पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युतं कृत्वा पुत्तलिकां साध्य नामयुक्ता मधो हृदि सनामहोम सम्पादकृतोपाच्यतां पुनः स्पृश निज कराग्रेण सहस्रं प्रजपेन्मनुम् अभ्यर्च्य तद्घृदाभ्यक्तं भक्षये तद्धिया जपन् नरनारीनृपास्तस्य वश्यास्योर्मरणावधिं शक्तयष्टङ्गधं सम्भिक्ष्य कन्यया शिशिरे जले तेन वैथिलकम्भाले धारयन्नश्व यज्जगद शालिदं दुलमादाय प्रस्थं भाण्डे न वेक्षिपेदः समानवर्णे वत्साय रक्ताय गोः पयस्तथा द्विगुणं तत्र निक्षिप्य श्रपयेत् संस्कृते नले कृते न सिकृतं तु कृत्वा तत्सन्निधं तत्ससितं करे विधाय विद्यामष्टोर्धूशतं जप्त्वा कुनेत्तदः एवं होमो महालक्ष्मी मा वहेत् प्रतिपत्कृतः शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेद् पञ्चम्यां तु विशेषेण प्राग्वोमं समाचरेद तस्यां तिधौ त्रिमध्वक्तैर्मल्लिकाध्यै सितैर्हुनेद अन्नाज्याभ्यां च नियतं हुत्वा नाढ्यो भवेन्नरः यद्यद्धि वाञ्छितं वस्तु तत्तत्सर्वं तु सर्वदा ृद होमातवाप्नोदि तथैव तिलतण्डुलैः अरुणैपङ्कजैर्होमं कुर्वं स्त्रीमधुराप्लुतैः मण्डलाल्लभदे लक्ष्मीं महदिं श्लाघ्यविग्रहान् ककलारैः क्षौद्रसंसिकृ पूर्णाद्यं तद्दिनावधि जुहुयान्नित्यशोभक्रिया सहस्रम् विकचैषुभैः सदुकीर्तिम् धनम् पुत्रान् प्राप्नुयान्नात्र संशयः चम्पकैः क्षौद्रसंसिक्तैः सहस्रहवनाद्ध्रुवन् लभते स्वर्णनिष्काणाम् शतम् मासे नारद पाडलैर्कृतसंसिकृतैस्त्रिसहस्रं दर्श्यादि दर्शादिमासाल्लभदे चित्राणि वसनानि च कर्पूरचन्दनाद्यानि सुगन्धानिदु मासदः वस्तुनि लभते हृद्यैरन्यैर्भोगोपयोगिभिः इर शालिभिः क्षीरसिक्ताभिसप्तमीषु शतं हृदं तेन शालिसमृद्धि स्याद् मासैषड्रभिरसंशयं तिलैहृदैस्तु दिवसैर्वर्षादारोग्यमाप्नुयाद स्वजन्म शत्रुषु तर्धा दूर्वाभिर्जुहुयान्नरः निरातङ्गो महाभोगशतं वर्षाणि जीवति गुडोचीतिलदूर्वाभिस्त्रिषु जन्मसु वाहुनेद तेनायुश्रीय शो भोगपुण्यनिध्यादिमान् भवेद कृदपाय स दुग्धैस्तु हृदैस्ते नृपामात्यो आयुरारोग्यविभवैर्नृपामत्यो भवेत्तथा सप्तम्यां कदली होमात् सौभाग्यं लभदेऽन्वहं दूर्वातृकैस्तु प्रादेश्यमाणास्त्रिस्वादु संयुतैः जुहुयात् दिनश्चोखोरे सन्निपातज्वरे तथा तद्दिनेषु जपेद्विद्यां नित्यश्च सलिलं स्पृशन् सहस्रवारं ततो यै स्नानं पानं समाचरेत पाकाद्यमपि तैरैव तैरव कुर्याद्रोहविमुक्तये साध्यर्क्षवृक्षः सञ्चूर्णं त्र्यवूषुत्र्यूषणं सर्षपं तिलं पिष्टं च साध्य पादोद्धरजसा च समन्वितं कृत्वा पुत्तलिकां सम्यग्धृतये नाम संयुधा प्राग्वत् चित्वा यस्यै तीक्ष्णैः शस्त्रै पुत्तलिकां हुनेद एवं दिनैः सप्तभिस्तु साध्योऽवश्यो भवेद् दृढं तथा विधां पुत्तलिकां पुण्डमध्यैनिकन्यजा उपर्यग्निं निधायाध विद्यया दिनशो हुनेद त्रिसहस्रं त्रिय सर्ष पैस्तद्रसप्लुतैः सदयोजनदूरादप्यान ह्ये ध्वनिदां बलाद वश ये ध्वनिदां हो मां कौशिकैर्मधुमिश्रितैः नालिकेर् फलोपे दैर्गुडैर्लक्ष्मीमवाप्नुयाद थाजशिख्रैक क्षीराक्रुण स्पल प्रमच प्रसूनुद्भव मधुकज प्रसून हृदय कन्यामुयाद पुन्ना गजद्वस्त्रण्याज्यम वाप्याद माहिष्यैर्मषीराजैरजान् गव्यैष्टगास्तथा अवाप्नोदि हृदैराज्यैः रत्नैरत्नं च साधकः शालिपिष्टमयीं कृत्वा पुत्तलीं स्रसितां तदः हृदेशन्यस्तनामार्नां पचेत्तैराज्ययोर्निशि तन्मनस्तदिवा रात्रौ विद्याजप्तां दुभक्षयद सप्तरात्र प्रयोगेण नरो नारी नृपोऽपि वा दासवद्वशमायादिचित्रप्राणादिचार्पयेद हयारिपुष्पैररुणैसिधैर्वाजुहुयात्तथा त्रिसप्तरात्रान् महदिमवाप्नोदि श्रियन्नरः चागमांसैस्त्रिमध्वकृदैर्होमा स्वर्णमवाप्नुयाद क्षीराकृदैः सस्यसम्पन्नाम् भुवमाप्नोदिमण्डलाद पद्माक्षैर्हवनालक्ष्मीमवाप्नोदि त्रिभिर्दिनैः बिल्लु ऐर्दशांशं जुहुयान्मन्त्राद्यैः साधने जपे एवं संसिद्धमन्त्रस्तु मन्त्रितैश्चुलुकोदकैः फणिदष्टमृदानां तु मुखे सन्ताड्य जीवयेद् तत्कर्णयोर्जपन् विद्यां यष्ट्या वा जपसिद्धया शम्ताड्यशीर्षं सहसा मृदमुद्धापयेदिति कृत्वा योनिं कुण्डमध्ये तत्राग्नौ विधिवधृनेद तिलसर्षपगोधूमशालि चालिधान्ययवैर्हुनेद त्रिमध्वक्तैरेकशोवा समेतैर्वा समृद्धये बकुलैश्चम्बकैरब्जैः कह्लादैररुणोत्पलैः कैरवैर्मल्लिकाकुन्द मधुकैरिन्दिराप्तये अशोकैपाडलैर्विल्लुहैर्जादी विकं कतैः सितैः नवनी रिपुजय फलैरश्वरिपुजैकर्णिकारजैः हो माल्लक्ष्मीं च सौभाग्यं निधि मायुर्ग्यशोलभेद दूर्वां गुडोचीमश्विद्धं वडमारग्वं तथा सितार्कप्रक्षदं हुत्वा चिरान्मुच्येदरोगदः मोचा इक्षुजम्बूनालिकेरमोचा गुडसिदायुधैः अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवं सर्षपाज्यैर्हृदे मृत्युः काष्ठाग्नौ वैरीं मृत्यवे चतुरङ्गुलजैर्होमाञ्चतुरङ्गबलेरिभोः सप्ताहाद्रोगदुःखार्तिर्भवत्येव न संशयः नित्यं नित्यार्चनं कुर्यात्तथा होमं हृदेन वै विद्याभिमन्त्रितं तोयं पिबेत् प्रादस्तदाप्तये तये चन्दनो शीरकर्पूर कस्तूरी रोचनान्वितैः काश्मीर काला गुरुभिर्मृगस्वेदमयैरपि पूजयेश्च शिवामे दैर्गन्धैः सर्वार्थसिद्धये सर्वाभिरभिनित्याभिप्राधर्मातृकया वाक्सिद्धये शिवम् विदध्या साधनं प्राग्वद्वर्णलक्षम् पयोव्रतः त्रिस्वादु सिक्तैररुहणैरम्बुजैर्हवनं चरेद जपतर्पणहोमार्चा सेकसिद्धमनुर्नरः कुल्यादुक्तान् प्रयोगांश्च न चेत्तन्मनुदेवताः णांस्तस्यग्रः सन्त्येव कुपितास्तत्क्षणान्मुने अनया विद्यया लोके यदसाध्यं न तत् क्वचिदरण्यवडमूले च पर्वताग्रगुहासु च उद्यानमध्यकान्तारे सिन्धुती सिन्धुतिरेवने चैदा यक्षिणी साधये कमलै नरः कमलैकैरवैरक्तैः सिदैः सौगन्धिकोत्पलैः सुगन्धिशिफालिकया त्रिमध्वक्तैर्यथाविधि होमात् सप्तसुवारेषु तन्मण्डलद एव वै विजयं समवाप्नोदि समरे द्वन्द्वयुद्धके मल्लयुद्धे शस्त्रयुद्धे वादे द्यूताह्नयेऽपि च व्यवहारेषु सर्वत्र जयमाप्नोदि निश्चितं च दुरङ्गुलजैपुक्ष्पैर्होमा संस्तम्भयेदरीन् तथैव कर्णिकारोद्धैः पुनागोद्धैर्नमेरुजैः चम्पकैकेतकैराजवृक्षजैर्माधवोद्भवैः प्राग्वद्दारेषु जुहुयात्क्रमत्पुष्पैस्तु सप्तभिः प्रोक्तेषु स्तम्भनं शत्रोर्भङ्गो वा भवति ध्रुवं शत्रोर्नक्षत्रवृक्षाग्नौ तत्समिद्भिस्तु होमदः सर्षपाद्यप्लुदाभिष्टे प्रणमन्त्येव पादयोः मृत्युकाष्ठानले मृत्युपत्रपुष्पफलैरपि समेद्भिर्जुहुयात् सम्यग्वारे शार्चनपूर्वकम् अराधे चतुरङ्गं तु बलं रोगार्दिदं भवेद् तेनास्य विधयो भूयान्निधनेनापि वा पुनः अर्कवारेऽर्कजैरिद्मैः समिध्येऽग्नौ तदुद्भवैः पत्रैः पुष्पैफलैकाण्ढैर्मूलैश्चापि पुनेक्रमाद सवर्णारुणवत्साया कृदसिकृैस्तु मण्डलाद अरादिदिग्मुखो भूत्वा कुण्डे त्र्यस्रे विधानदारोगा भयाद पला से नले तस पंगद प्लुद होमेन सोमवार भवत्गन्न संशय का नले तस् वनात् तदाप्नोति सुनिश्चितम् अपामार्गस्य सौम्येह्नि पिप्पलस्य गुरोर्दिने उदुम्बरस्य भृगुजे शम्यां मान्देह्नि गोखृदः शुभ्रभीदसिदश्यामवर्णाद्याक् पूर्ववत्तथा तद्भलं समवाप्नोति तत् समि प्रतिपत्तिधिमारभ्य पञ्चम्यदं क्रमेण वै श पञ्चम्यन्तं क्रमेण वै शालिचणकमुद्गैश्च यवमाशैश्च होमतः माहिषाज्यप्लुतैस्ताभिष्टिदिभिः समवाप्नुयाद षष्ट्यादिसप्तम्यन्तं तुजा च भवहृदैस्तथा प्रागुक्तैर्निस्तुषैर्होमात्प्रागुक्द बलमाप्नुयाद तद्वर्धं भञ्जके त्वेदैः समस्तैश्च तिलद्वयैः सिदाह्नैः पायसैषिकृदैराविकैस्तु हृदैस्तथा हवनात्तदवाप्नोति यदादौ फलमीरिदम् एवं नक्षत्रवृक्षोद्धवह्नौ तैस्तैर्मधुप्लुतैः हवनादपि तत्प्राप्तिर्भवत्येवनसंशयः विद्यां संसाध्यपूर्वं तु पश्चादुक्तानशेषतः प्रयोगान् साधये धीमान् मङ्गलायाः प्रसाददः सम्भोज्य देवतां विप्रकुमारीं कन्यकां तु वा सशुभा वयवमुग्धां स्नादां धौदाम्बरां शुभां तथाविधं कुमारं वा संस्थाप्यभ्यर्च्य विद्यया पृष्ठशीर्षो जपे द्विद्यां शतवारं तथार्चयेद प्रसूनैररुणैः शुभ्रैः सौरभाण्ड्यैरथापि वा दद्या गुगुलधूपं च कर्मावसानकं तदो देव्या समाविष्टे तस्मिन् सम्पूज्य भक्तिदः तदस्तामुपचारैष्ठयि प्रागुक्दैर्विद्ययावृती प्रजपंस्ताम् तदपृच्छेदभीष्टम् कथयेच्च सा भूतम् भवद्भविष्यम् च यदन्यन्मनसि स्थितम् जन्मान्तराण्यतीतानि सर्वम् सा पूजिता वदेद् तदस्ताम् प्राग्वदभ्यर्च्य स्वात्मन्युद्वास्यताम् जपेद सहस्रवारं स्थिरधि पूर्णात्मा विचरेत् सुखी मधुरत्रयसंसिक्तैररुणैरम्बजै श्रियं प्राप्नोति मण्डलं होमाश्रितैश्च महद्यशः क्षौद्राक्तैरुक्तलैरक्तैर्हवनात् प्रोक्तकालतः सुवर्णं समवाप्नोति निधिं वा वसुधां तु वा क्षिराक्तैः कैरवैर्होमात् प्रोक्तं काममवाप्नुयाद धान्यानि विविधान्याशु सुभगस्सभवे नरः आज्याक्तैरुत्पलैर्होमाद्वाञ्छितं समवाप्नुयाद वल्लभः तदकृतैरभिकह्लादैर्हवनाद्राजवल्लभः पलाशपुष्पैस्त्रिस्वादुयुक्तैस्तत्कालहोमदः चतुर्विधं दुःपाण्डित्यं भवत्येव न संशयः लाजैस्त्रिमधुरोपेदैस्तत्कालभवनेन वै कन्यकां लभते पत्नीं समस्तगुणसंयुताम् नालिकेरफलक्ष्वेदं ससिदं सगुडं तु वा क्षौद्राक्षं जुहुयात्तद्वदयात् नाद्धनगोपमः तथैव नाज्यहोमेन सतन्तुलतिलैरपि प्रसूनैररुनैस्तद्वतथा बन्धूकसम्भवैः सिदैप्रसूनर्वाक्सिद्धिं हवनात्समवाप्नुयाद सिधरकृैस्तु मिलितैरायुरारोग्यमाप्नुयाद दुर्वातृकैस्त्रिमध्वक्तैर्हवनात्तु जये च ता तथा गुढूच्या होमेन पायसेन तिलेन च श्रीखण्डपङ्कर्पूर मिलितै शतभद्रकैः अवनाश्रियमाप्नोति यावदन्वयगा भवेद् कुङ्कुमं हिमतो येन पिष्ट्वा कर्पूरसं युधं सत्पङ्गमर्दिदैर्होमात् कह्लादैर्विकचयिषुमैः राजकल्पश्रिया भूयाज्जीवेद्वर्षशदम्भुवि नि सपत्मो निरादङ्गो निर्द्रन्दो निर्मलाशयः इक्षुकाडस्य इक्षुकाण्डस्य सकलैर्हवनाद्वस्त्रमाप्नुयाद तथैव करभिरोद्धैप्रसूनैररुणैषिधैः शौद्राहैर्पाडलापुष्पैर्हवनाद्वशयेद्वधूः तथैव पङ्कजैर्होमाद्रूपाजीवाम् वशं नयेद सरूपवत्सासितगोक्षिराकृदसिदहोमदः लभदेनुपमां लक्ष्मीमपि पापिष्टचेतनः सौवीराकृदैस्तु कार्पासबीजस्तत्कालहो मदः अर्धेन्दुकुण्डे नियतरिपवो मुने अरिष्टपा अरिष्टपत्रैस्तद्बीजैस्तद्वह्नौ तैस्तधा हृदैः मृत्युबीजैर्निम्बतैलसिक्तैर्होमान् निहन्दितान् रोगार्तां स्तुरगांस्तद्वत् पञ्चगव्यैर्हृदैर्धुवम् अक्षबीजैस्तु तैलाकृतैर्होमस्सर्वविनाशनः करं च बीजैः संसिकृतैर्होमाद्वैरीपिशाचवान् तथैवाक्षदरुद्भूतपञ्चाङ्गहवनादपि निम्बतैलान्वितैरक्षद्रुमबीजैस्तु होमदः तद्दिने स्यादपस्मारी वैरीभवति निश्चितम् अराधेर्जन्मनक्षत्र वृक्षेऽन्धनगदे नले सद्यो निपीशितैस्तैश्च हवनान् मृत्यु कृद्रिभोः पद्माक्षबीजै सर्षपतैलाप्तैर्हवनात् तदा जायन्दे रोगादेह विलोपकाः मरीचैः सर्षपैर्होमात्तैरात्तैर्मध्यराजगे ताइर दाहज्वरेण ग्रस्तस्याधरादेस्तद्दिने ध्रुवं एवं निग्रहकोमेषु स्वरक्षायै तथान्वहं स्निग्धैः सम्प्राप्तसद्विद्यैर्जपहोमादिकारयेद् मृत्युं जयेन वा तत्तत् प्रयोगस्थाभिरेव वा विद्याभिरन्यधासिद्ध मन्द्रमस्याशु नाशयेदक्षत्रयं कृते प्रोक्तं त्रयधायं द्विगुणं तथा द्वापरे त्रिगुणं प्रोक्तम् कलौ तत्तु च दुर्गुणम् दशांशम् हवनम् कार्यम् दर्पणम् तद्दशांशदः तद्दशांशम् मार्जनम् एवम् क्रमेण सर्वासां या या सङ्ख्या जपस्य च कार्यासिद्ध्यैद विद्या यात्तदकुर्यात्प्रयोगन् द्विगुणो हि जपः कार्यकामेश्वर्या सिद्धे मन्त्रे प्रयोगांस्तु विदधीद यथा तथा जपो लक्षं समाख्यातो होमादिस्तद्धांशदः कर्तव्यो भगमालाया विद्यासिद्ध्यै मुनीश्वर नित्यक्लिन्ना जपप्रोक्तो लक्षं होमो हांशदः तदो मौनीपयोभक्षप्रजपेर्णवलक्षकम् रुण्डामन्त्रमुक्तं तु शेषं कुर्यात् प्रयत्नतः लक्षत्रयं जपो वह्निवासिन्यात्समुदीरितः अन्यत्सर्वं पुरावच्च कार्यं साधक सप्तमैः महावज्रेश्वरी विद्या जपो लक्षत्रयो मदः हवनादिदशांशेन कार्यं प्रोक्तक्रमेण हि लक्षमिदं दूदीमनुं तद्दशांशक्रमेणैव होमादिप्रोक्तमार्गतः त्वरितां प्रजपे लक्षप्रमिदां तद् दशांशदः कृत्वा होमादिकं सर्वं विद्यासिद्धि अय मुना मुनीश्वर जपो लक्षं समाख्यातो होमादिस्तद् दशांशदः विद्यायाकुलसुन्दर्या कर्तव्यो द्विजसत्तम नित्या नित्या जपो विप्र त्रिलक्षप्रमिदो मदः हो मादिस्तद्दशांशेन प्रोक्तप्रोक्तविधानदः त्रिपञ्चाशल्लक्षमुक्तो नियमेन मुनीश्वर जपो नित्यपदाकाय हो मादिस्तद्दशांशदः विजयाय जय प्रोक्तो लक्षमाणेन नारद अन्यत्पूर्वपदाख्यातं विद्यासिद्ध्यै तु साधनं दन्तलक्षप्रमाणेन सर्वमङ्गालिकां जपेद तद्दशांशक्रमेणैव होमादिसमुदीरितम् अष्टलक्षं हविष्यासि ज्वाला मालिनिकां जपेद होमादिस्तद्दशांशेन प्रोक्तद्रव्यै समीरितः चित्राया भूपलक्षं तु जपो होमादिकस्तदः प्रोक्तेन विधिना कार्यो विद्यासिद्ध्यै मुनीश्वर यदस्सङ्क्षेपदप्रोक्तं नित्यापटलमादिद ज्ञातव्यं सर्वमेवास्त्र यन्त्रसाधनपूर्वकम् इति श्री बृहन्दीयपुराणे पूर्वभागे बृहदुपाख्याृतीय पदे निपटलथनम नवतितमोध्याय ओम।